श्रीमद्भागवत् महापुराणं दसंस्कन्ध चतुर्थोऽध्यायः समध्वं मम दौरात्म्यं साधुवो दीनवत्सलाः इत्युक्त्वा शुमुखपादौशालशवस्त्रो रथा गृहीत मोचयामास निगड्डादविश्रब्धकन्यकागिरा देव किं वसुदेवं च दर्शयन्नात्मसौहृदम् भ्रातुसमनुतप्तस्य क्षान्त्यात्रोसं च देवके देवस्य यस् यद्वसुदेवस्य प्रहस्य तुमुवाच एवमेतन्महाभाग यथावदिसु देहिनाम् स्वपरेति हन्धि स्वपरेतिभिधायतः शोकहर्षभयद्वेष लोभमोह मदान्विता मिथोघ्नन्तम् न पश्यन्ति भावैर्भावम् पृथगृश श्रीशोकुवाच कंस एवम् प्रसन्नाभ्याम् विशुद्धम् प्रतिभासितः देवकीवसि देवाभ्याम् अनुज्ञातो विसद्गृहम् तस्यां रात्र्याम् व्यतीतायाम् कंस आहूय मन्त्रिणः तेभ्य आचष्ट तत्सर्वं यदुक्तम् योगनिद्रया आकर्णभर्तुर्गदितं तमुचुर्देवशत्रवः देवान् प्रति कृतामर्षाद्दयते जानादिको विदाः देवं चेत्तर्हि भोजेन्द्रपुरग्रामबजादिषु अनिर्दशान् निर्दस्तांश्च हनिश्यामोद्यमै शिशुन् किमुद्यमै करिष्यन्ति देवा समरभीरवः नित्यमद्व्यग्नमनसो ज्याघोषये धनुषस्तव अस्य तस्ते सर्वभ्रातैर्हन्यमाना सुमन्ततः जिजेविसौ सृज्य पलायन पराययुः केचिद् प्राञ्जलियो दीनान्यस्य सा शस्त्रादिवौ कष मुक्तकच्छ शिखा केचिद्भीता स्म न त्वं विस्मृतशस्त्रास्त्रान् निरथान् भयसंमृतान् अंसन्यासक्तविमुखान् भग्नचापान् युध्यतः किं क्षेमासुरैर्विबुधैम् असंयंयुगविकथनैः किं क्षेमासुरैर्विबुधैम् असंयोगविकथनैः रहोजुषा किं हरिणा शम्भुनावापनौकषा किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपश्यता तथापि देवा सा पत्न्यान्नोपेक्षा मन्महे ततस्तन्मूलखनने न्युक्ष्वास्मान् वृतान् यथामयोऽङ्गे समुपेक्षितो निभि न शक्यते रुळपदश्चिकीर्सितुं यथेन्द्रिग्रामम् उपेक्षितस्तथा रिपुरमहान् तस्सान्तस्मात् सर्वात्मना राजन्ब्राह्मणान् ब्रह्मवादिन तपस्विनो यज्ञशीलान् गाश्च हन्यो हन्मो हविर्दुःखाः विप्रागावश्च वेदाश्च तपः सत्यं दमः श्रद्धा दया तिक्षा च कृतवश्च हरेस्तनो स सर्वसुराध्यक्षो ह्यशुरन्विरगुहाशय तन्मूला देवता सर्वासेश्वरासचतुर्मुखाः नवम् अयं वै तद्वधोपायो यदृशीणां वहिशंसनं शेषो उवाच एवं दुर्मन्त्रिभिः कंसससं मन्त्र्यदुर्मतिः ब्रह्महिंसां हितं मेने कालपाशा मृतोशुरः सन्ध्यस्य साधु लोकस्य कदने कदनप्रियान् कामरूपधरान् दिक्षु दानवान् गृहमाविशन् ते वैरजप्रकृतय तमसा मूढचेतस सतां विद्वेषमाचेरुरारादागतमृत्यवः दायो श्रियं यशो धर्मं लोकानाशिष च दन्त्यसेयांसि सर्वाणि पुंसो महदतुक्रमः इति श्रीमद्भागुते महापुराणे पारभंसां शयितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः